श्रीमद्भागवतमहापुराणं नवमं स्कन्ध अथैकविंशोऽध्यायः भरतवंशका वर्णन् राजा रन्तिदेवकी कथां श्रीशोकुवाच विथतस्य सुतो मन्युर्बृहच्छेत्रो यस्ततः महावीर्यो नरो गर्गसंकृते नरात्मजः गुरुश्च रन्तिदेवश्च संस्कृते रन्तिदेवस्य हीयश ह्यामुद्रा च गीयते विद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः निष्किञ्चनस्य धीरस्य स कुटुम्बस्य सीदतः व्यतेयोरष्टचत्वारिंशदहान्य पिबतः किल घृतपायससंय्यावं तोयं प्राचुरुपस्थितम् तीर्थप्राप्तकुटुम्बस्य छतृभ्यां जातवेपथोः अतिथिर्ब्राह्मणकाले भोक्तु कामस्य चागमत् तस्मै सभ्यभजसोऽन्नम् आदित्य श्रद्धयान्वितः हरिं सर्वत्र सम्पश्यन् स भोक्ता महीपते विभक्तं जस्मै विशलाय हरिंस्वरन् या ते शूद्रे तन्मयोगादितिथिष्वभिरावृतः राजन्मे दीयताम् अन्नं स गुणाय बुभुक्षते स यन् बाहुमान पुरस्कृतं तच्च दत्त्वा विभो पानीयमात्रमुच्छेशं तत्यैकपरितर्पणम् पास्यत पुल्कसोऽभ्यागान् अपोदेह्य शुभस्य मे तस्यतां तां करुणां वाचं निशम्य विपुलश्रमाम् कृपया भृत्सन्तप्त इदमाहामृतं वचः न कामयेऽहं गतिमीश्वरात्पराम् अष्टधियुक्ताम् अपुनर्भवं वाम् आर्तिं प्रपद्येऽखिलदेहभाजाम् अन्तः स्थितो येन भवन्ति दुःखाः शुष्टिश्रमो गाचपरिश्रमश्च दैन्यं क्रमशोकविषादमोहाः सर्वे निवेत्ता कृपणस्य जन्तो जिजिर्विषो जीव जलार्पणान्वे इति प्रभास्य पानीयं म्रियमाण पिपासया परुकसाया ददाद्भीरो निसर्गकरणो नृपः तस्य त्रिभुनाधीशा फलदा फलमिक्षताम् आत्मानं दर्शय चक्रुर्मायाविष्णो विनिर्मिताः स वैतेभ्यो नमस्कृत्य निषङ्गो विगतस्पह दासुदेवे भगवती भक्त्या चक्रे मनः परम् ईश्वरालम्बनं चित्तं कर्वतोऽनन्यराधस मायागुणमयी राजन् रप्नवद्रं प्रत्यलीयत तत्प्रसङ्गानुभावेन रन्त्रदेवानुवर्तिनः अभवन् योगिनः सर्वे नारायणपरायणाः गर्गाच्छीने सतो गार्ग्य छद्राद्ब्रह्मा च वर्तत धृतक्षयो महावर्यात् तस्य त्रय्यारुणि कविः पुष्करारूणिरीत्यत्र ये ब्राह्मणगतिं गताः बृहच्छत्रस्य पुजों पुत्रो भुवं हस्ते जद्धस्ति नापुरम् अजमेढोद्विमूढश्च पुरुमीढस्य हस्तिनः अजमेढस्य वंस्यास्यो प्रियमेधादयो द्विजाः अजमेढाद्बिहदिशुं तस्य पुत्रो बृहद्धनुः दिहत्काय ततस्तस्य पुत्र आसीत् जयद्रथ तत्सुतो विशदस्तस्य सेनजिन् समजायत रुचिरास्व दृढनु कास्योऽवस्य तत्स्रुताः धृतिरास्व सुतपारपृथितेन सदात्मजः पारस्य तनयोनीप तस्य पुत्र शतं तभूत् सकृद्यां सुकन्यायां ब्रह्मदत्त्वम् अजीजनन् स योगी गविभार्यायां विश्वक्सेन मधास्रुतम् जयगीषव्योपदेशेन योगतन्त्रं चकारः उदक्ष्मणं ततस्तस्मान् प्रह्लादो बार्ह्यशवाह जवीनरोद्विमूढस्य कुसुमास्तृता नाम्ना सत्यधितिर्यस्य दीर्घनेमि सुपार्श्वगरे सुपार्श्वासुमतिस्तस्य पुत्रसन्नतिमास्ततः ज्यतिर्षनाभाज्यों योगं प्राप्य जगोष्म यो सन् संहिता प्राच्यसाम्नां वै निपोषिं शुग्रायुधस्ततः तस्य क्षेम्य सुवीरोऽथ सुवीरस्य रिपुञ्जयः ततो बहुरथो नाम पुरुमीढो प्रजोऽभवन् नलिन्याम जमीढस्य नीलशान्तिसुतस्ततः शान्तेषु शान्तिस्तत्पुत्रपुरुजोऽर्कस्ततो भवत् भर्म्या स्वन्तनयस्तस्य पञ्चासन्मुद्गिलादेयः यविनरो बृहद्दृशो काम्पिळ्य सञ्जयश्रुताः भर्म्या स्वप्राहपुत्रा मे पञ्चानां रक्षणाय हि दिशयाणाम् अलमिवेति पञ्चालसङ्गिताः मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मोद्गल्यसङ्गीतं मिथनं मुद्गलाद्भार्यादिबुदासपुमान्भूत् हल्या कन्यकायस्यां सतानन्द सुगौतमात् तस्य सत्यधिथिपुत्रो धनुर्वेद विशारद तरद्वान्तर्सुतो यस्मान् दुर्वशी दर्शनात् किल सरस्तम्बे पदद्वैतो मिथुनं तद्भुत्युमम्भं तद्दृष्ट्वा कृपया गृह्या छन्दोर्मृगयां तरन् कृपकुमारकन्या च दोढपत्न्य भवत्युपि इति श्रीमद्भागुते